अष्टत्रिंशोऽध्यायः जनमेजय जय उवाच भगवन् श्रोतुमिच्छामि पार्थस्याकृष्टकर्मणः विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् यथा च पुरुषव्याघ्रो दीर्घवावृर्धनञ्जयः वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् किञ्च तेन कृतं तत्र वसताब्रह्मवित्तम कथञ्च भगवान् स्थाणुर्देवराजश्च तोषितः एतदिच्छाम्यहं श्रोतुं त्वं हि सद्वज्ञदिव्यञ्च मानुषञ्च वेत्थः अत्यद्भुततमं ब्रह्मन्षणमर्जुनः भवे न सह सङ्ग्रामम् चकारु पुरा प्रहरतां श्रेष्ठः सङ्ग्रामेष्वपराजितः यच्छुत्वा दैत्यहर्ष्याति विस्मयात् शूराणामपि पार्थानाम् हृदयानि चकंपिरे कम्पिरे यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद न ह्यस्य निन्दितञ्जिष्णोः सुसूक्ष्ममपि चरितं शूरस्य तन्मे सर्वं प्रकीर्तय वैशम्पायन उवाच कथयिष्यामि ते तात कथामेतां महात्मनः दिव्यां पौरवशार्दूलमहतीमद्भुतोपमां गात्रसंस्पर्शसम्बद्धां त्रयम्बकेण महानघ पार्थस्य देवदेवेन शृणु सम्यक् समागमम्